इपावत् दशकम् वे भूखण्डल आराधने मद्योद्भवे भुव इलावृतनाम् निवर्षे गौरीप्रधानवनिता जनमात्रभाजी सर्वेण मन्त्रनुदिभि समुपास्यमानम् शङ्कर्षणात्मकमदीश्वर संश्रये त्वा भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवो वि ध्यायामि देवः यसीर्षतनुम् भवन्तम् दक्षिणगते हरिवर्ष वर्षे प्रह्लादमुक्यपुरुषे परिषेव्यमाणम् उत्तुङ्गशान्तदवलाकृतिमेकशुद्ध ज्ञानप्रथम् नर हरिम् भगवन् भवन्तम् वर्षे लक्ष्म्या प्रजापति सुतैश्च निषेव्यमाणम् तस्याप्रियायदृतकामतनुम् भजे त्वा रम्येऽप्युदिशि खलु रम्यकनाम्नि वर्षे त्वर्शनादमनुवर्य सपर्यमाणम् भक्तैकवत्सलममत्सरकृत्सुभान्तम् मत्सा कृतिम्बुवननाथ भजे भवन्तम् वर्षे हिरण्मय समाक्वयमौत्तराहम् आसीनमद्रिदृदि कर्मटकामटाङ्गम् संसेवते पितृगणप्रवरोर्यमाय तम् त्वाम् भजामि भगवन् परचिन्मयात्मन् किञ्चोत्तरेषु कुरुषु प्रिययादरण्या संसेवितोमहितमन्त्रनुति प्रभेते दंष्ट्राग्रकृष्टगणपृष्टगरिष्ठवर्ष्मा त्वम् पाकि विज्ञनुत यज्ञवराहमूर्ते याम् याम् दिशम् भजदि किम् पुरुषाक्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा सीताभिराम परमाद्भुतरूपशाली मात्मक परिलसन् परिपाहि विष्णो श्रीनारदेन नारायणो नरस कपरिपागि भूमन् द्वीपे भजन्ति कुच नाम निवग्निरूपम् क्रौञ्चेम्बुरूपमदवायुमयम् चचाके त्वाम् ब्रह्मरूपमयि पुष्कर नाम् निलोका सर्वै द्रुवादिविरुढोर्ब्रकरैर्गृहैश्च पुश्चातिकेष्वयवेष्व विकल्प्यमानै त्वम् सिंशुमारवपुषामकथापास्य सन्त्या सुरुन्दिनरकम् मम सिन्धुसायिन् पातालमूलभुविशेषतनुम् भवन्त लोलैककुण्टलविराजिसहस्रशीर्ष नीलाम्बरम् द्रुतहलम्बुजगाङ्गनापि जुष्टम् श्रीहरये नमः